श्रीरामस्य महिमा पितुः अज्ञया श्रीरामः वनवासाय गन्तुं सज्जः आसीत् तदा सः चिन्तितवान् अधुना मया एतावत् दानं दीयते येन अयोध्यावासिनः जनाः यावत् अहं चतुर्दशवर्षावधिकं वनवासं समाप्य नागमिष्यामि तावत् धनस्य अभावं न अनुभवेयुः इति अनन्तरं तेन तथैव दानं कृतं जनेभ्यः मुक्तहस्ततया वस्त्रादिकं दानरूपेण प्रदत्तम् एकतस्तु अयोध्यावासिनः धनं प्राप्य प्रसन्नतायाः अनुभवम् अकुर्वन् अपरतः अयोध्यायाः सिंहासनं त्यक्त्वा श्रीरामः पितुः अग्नया सीतालक्ष्मणाभ्यां सह वनं गच्छति इति श्रुत्वा ते नितरां दुःखिताः अपि आसन् तस्मिन् समये अयोध्यायां त्रीजटः नाम कश्चन वृद्धः ब्राह्मणः सपरिवारं निवसति स्म सः अतिवा निर्धनः यदा तस्य भार्या श्रीरामस्य दानविषये श्रुतवती तदा सा पतिं सानुरोधम् उक्तवती भवान् अपि श्रीरामं शरणं गच्छतु ततः धनं याचतु श्रीरामः अतीव दयालुः अस्ति सः निश्चयेन धनं दास्यति तेना वयं सुखेन जीवितम शक्यामः इति एतत् श्रुत्वा त्रिजटः शीघ्रमेव श्रीरामस्य समीपं गतवान् थं धनं याचितवान् च श्रीरामः किञ्चित् विहस्य तस्मै एकं दण्डं दत्तवान् ततः उक्तवान् च भवान् एतं दण्डं बलात् क्षिपतु इत यत्र पतिष्यति तावत् भूम्यां स्थिताः सर्वापि गावः भवदीयाः भविष्यन्ति इति वृद्धः ब्राह्मणः त्रिजटः शरीरेण कृशः आसीत् सः चिन्तितवान् अहं तु दुर्बलः अस्मि अतः मया क्षिप्तः दण्डः किञ्चित् दूरमेव पतिष्यति तेन मम अधिकः लाभः न भविष्यति तदापि प्रयत्नं तु करिष्यामि इति ततः क्षुब्धमनसा सः सकृत् श्रीरामं दृष्टवान् श्रीरामः तस्य मनोभवं ज्ञातुं किञ्चित् स्मितं कृत्वा उक्तवान् कुतः विलम्बः शीघ्रमेव दण्डं चिपतु इति तदा तु त्रिचटः कदं कदं पि दण्डं चिप्तवान् परम् इदं तु महत् आश्चर्यं यत् सः दण्डः सरयूनद्याः द्वितीयतटे न्यपतत यत्र च बहवः गावः चरन्ति स्म श्रीरामः तं ब्राह्मणं स्वसमीपम् आहूय प्रेम्णा उक्तवान् एतासां सर्वासां गत्वा स्वामी भवान् एव एतद् गोरूपधनं भवान् स्वीकरोतु इति त्रिजटः अद्य आश्चर्येण रामं दृष्टवान यतः सः सम्यक् जानाति यत् एतावत् दूरं दण्डचेपनं स्वेन तु सर्वथा न शक्यमिति अतः अत्र तु भगवतः श्रीरामस्य महिमा एव कारणमिति निश्चित्य सः श्रीरामं भक्त्या नमस्कृतवान् श्रीरामः अपि त्रिचटं दृष्ट्वा मन्दम् अहसत्